नीलाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसितरसे नमः गृणाहि धृतवती स पितराधिपत्यैः पजस्पतीरन्तिराशानस्तु ध्रुवादिशाम् विष्णुपत्न्यघोरास्त्ये चानासहसो जामनोता बृहस्पतिर्वातरिष्वोत वायुः सन्धुबादावात अभिनो गृह्णन्तु विष्टम्भो दिवो धरुणः पृथिव्या अस्य जगतो विष्णुपत्नी महादेव्यै च विष्णुपत्नीच विष्णुपत्न्यै च धीमहि तन्नो नीला ॐ शान्तिः